गणेशपुराणम् उपासनाखण्डम् अध्यायं सिक्स्टिवन् ब्रह्मोवाच ये कदाहं राजन राजन्कैलासं गिरिशालयम् उपविष्टः सभामध्ये पश्यन्नारदमागतं तेनापूर्वं फलं चैकं शङ्कराय निवेदितं ययाचे गणपदस्तु कुमारोऽपि च शम्भवे कस्मै देयं फलमिदमपृच्छङ्करोऽपि माम् अहम्प्रोवाच बलाय कुमाराये दितं तदा दत्तं शिवेन तस्मै तच्छुक्रोथ च गजाननः ततो ब्रह्म स्वभवनं गत्वा स्रष्टुमियेष सः तदो विघ्नकरो विख्णा विघ्नं चकारपरमाद्भुतम् उग्ररूपं समास्ताय भीषयामास तदा तदा मयिभ्रान्धेध स विधुर्दृष्ट्वा क्रूरतरं तुतम् अहः सत् परं चन्द्रस्वगणायर्द्विरदानमं ततः परमक्रुद्धो सावशपत्थं विभुं तदा अदर्शनीयत्रैलोक्ये मद्वन्यात्वं भविष्यसि कदाचित् केन दृष्टः स येवं गदो देवो श्वा गो दिजामम गणतः चंद्रस् मलिदीनो लीनशिता हृद अणिमागुण पेदे जगत्कारणे कथमाचरिम दौष्यमज्ञा बालवन्मया अदर्शनीयः सर्वेषां विवर्णो मलिनो भवम् कथं सुरूपो वन्द्यश्च कलाभिः सुरतोषकः एतस्मिन्नन्तरे देवैः श्रुतः शापो महान्विधोः तत्रे योर्वह्निचक्राद्या यत्रास्ते सौ गजाननः विजिपु सुखास्ते विघ्न कारणकिणे दवा ऊचुदेवगदासी वंदनीय स्व पासी हंसी विदासी यथेमीश निर्गुणी गुणकृुीनाधीश स्वामेव देवं शरणं वयमद्ययाः पाहीश नोऽखिलजगत्तवशापभीदं चन्द्रे पराधिनिकथं पतितं सुकष्ठं तस्माद्वयं च जगदीश च गच्छ चन्द्रः शर्माप्नुयाम भुवनेश तथा तथाविधेहि कष्टे निपतितं विश्वमदृश्ये शशिनिप्रभो अनुग्रतं च चन्द्रेऽस्मिन् त्रैलोक्ये कर्तुमर्हसि नाज्ञासीद्यस्य रूपं महिमानं श्रुदित्रयं सकस्य स्तवनीयस्यात् यवे कृतकृत्या कृत्या वह तेजर्शनाषण शरण ते प्रपन्ना प्रपन्नायदि तवचनम श्रुवा जगादान सुप्रसन्नस्तवै तेषां धर्मकामार्थमोक्षदः विकट उवाच प्रसन्नोकं सुरास्तुत्या वृणुध्वं वाञ्छिदमहद असाध्यमपि वो दध्यां त्रिषु लोकेषु यद्भवेद सुधाकरेनुग्रहं ते सर्वं इहा महे वयम् अनुगृहीते तस्मिंस्तु सर्वेषाम्नो ग्रहो भवेद गणेश उवाच एकाब्दं वा तदर्थं वा तदर्थार्थमथापि वा अदर्शनीयोऽस्तु शशीवृधान्यं वा वरं सुराः तदस्ते दण्डवत् सर्वे प्रणेमुर्द्विरदाननम् उवाच प्रणतांस्तांस्तु विकटो भावपूर्वकम् अप्रमानं कथमहो वचनं कर्तुमुद्यतः शरण चपन्नाग कर्त्से मेरुश्चे पदे सूर्यो वहदो भवि मर्याद मुत्सृजे सिंधु वजो मे नानृद् भवद अथापि गूठद वाक्यम भाद्र शुक्लचतुर्भ्यां यो ज्ञानदो ज्ञानदोऽपि वा अभिशापि भवेच्चन्द्रदर्शनात् भृशदुःखभाक इति तद्वचनं श्रुत्वा देवा मोमुदिरे किलाः ॐमिति प्रणिपत्यो च पुष्पवृष्टिं च चिक्षिपुः तदनुज्ञां गृहीत्वे युर्देवाश्चन्द्रमसम्प्रति तमोचुस्त्वं मूढधरो यो ह त्रैलोक्यं संकडेक्षिप्तं क्षिप्तं पराधिना त्रैलोक्यनायके देवे जगत्त्रयविधायिनि अव्य निर्गुणे नि पर्रह्मस्वू गनेखिल गुरावराधम यथोचरयम तेनावोकसुना अस्मक्ल प्रसन्नो सौ कृतो विभु भाद्रपदचतुर्थ्यां त्वं न द्रष्टव्यः कदाचन त्वं शरणं या हि देवदेवं गजाननं तत्प्रसादाच्युद्धतनुःपरां ख्यादिमवाप्स्यसि इति चन्द्रो वचुत्वा देवानां हितमात्मनः जगामशरणं देवं शरणागतवत्सलं गजाननं सुरेशानं महेशानादिवन्दिदं जजापपरमं मन्त्रमेकाक्षरमखापहम् विधुरिन्दोपदिष्टं स परमेण समाधिना दशद्वादशवर्षाणि तपस्ते फे सुदारुणं गङ्गाया दक्षिणेतीरे सर्वसिद्धिप्रदायिनि तदः प्रसन्नो भगवान् पुरो यादो गजाननः रक्तमाल्याम्बरधरो रक्तचन्दनचर्चितः चतुर्भुजो महाकायसिन्धूरारुणविग्रहः प्रभया भास यं लोकान् कोटिसूर्याधिकप्रभा तेजःसमूहं दृष्ट्वा तं प्रचकम्बे भृशं शशी परमं धैर्यमास्ताय कृताञ्जलि पुरःपुरः तर्कयामासमनसा प्रायोयं द्विरदाननः वरं दादुमिहा याद दा इति मत्वा ननामदं तुष्टावपरया भक्रिया देवदेवं गजाननं चन्द्र उवाच नमामि देवं द्विरदाननं तं यः सर्वविघ्नं हरदे जनानाम् धर्मार्थकामांस्तनुदेखिला मां तस्मै नमो विघ्नविनाशनाय कृपानिधे ब्रह्ममयाय दे देव विश्वात्मने विश्वविधानदक्ष विश्वस्य बीजाय जगन्मयाय त्रैलोक्यसंहारकृते नमस्ते त्रयीमयाय किल बुद्धिप्रदीपाय सुराधिपाय नित्याय सत्याय च नित्यबुद्धे नित्यं निरीहाय नमोऽस्तु नित्यम् अज्ञानदोषेण कृतोपराधस्तं क्षन्तुमर्होऽसि दयाकरस्त्वम् तवापि दोषः शरणागदस्यत्यागे महात्मन् कुरु मेऽनुकम्बाम् ब्रह्मोवाच यदि तद्वचनं श्रुत्वा सुप्रसन्नो गजाननः तस्मै वरान् दधौ देवस्तुत्या नत्या सुतोषितः यथा पूर्वं स्थितम् रूपम् तथा तत्ते भविष्यति भाद्रशुक्लचतुर्थ्यां त्वां यो नरः सम्प्रपश्यति तस्याभिशापो नूनं स्यात्पापं हानिश्च मूर्खता तस्यामदर्शनीयोऽसि यदुक्तं मे सुरैः सह कृष्णपक्षे च दुर्ध्यां तु व्रतं यत् क्रियते नरैः तवो दये सम्पूज्यस्त्वं पूजनीयः प्रयत्नतः दर्शनीयः प्रयत्नेन विपरीते व्रतं वृथा ललाडे कलया तिष्ठ मम प्रीदिकरशिन् प्रतिमासं द्विदियायाम नमस्यश्च भविष्यसि एवं लब्ध वरश्चन्द्रो यदा पूर्वो भवत्तदा स्थापयामास वरद मूर्ति देवर्षि सह बालचन्द्रेदि नामास्य चक्रुस्ते मुनयः प्रसादं प्रसाद कस कांचनमन संयुम उपचारय षोडशादर पूजयुनय वरा दु सिेत्रद लोके विख्या भविष्य अनुष्ठानवतामत्र सर्वसिद्धिकरं भवेद ततस्ते देवमुनयो नत्वा तं द्विरदाननं ययुः प्रसन्नमनः स्वं स्वं स्थानम् देवमुनिषु देवोऽपि बिद्ध देवभुः अन्तर्हि दे चन्द्रौ हृष्टमना इव स्वं धामप्रतिपेदे वै स्वं धाम प्रययौ तदा यदि श्रीगणेशपुराणे उपासनाखण्डे नामैक नामैकषष्टितमोऽध्यायः ओ